हरि ओं श्री सीतारामचन्द्रभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे श्रीनवतितमः सर्ग श्रीरामेण राक्षसेनाया संवार स्वप्रवेश्य सभां राजा दीन परमदुःखितः निशसादासने मुख्ये सिंह क्रुद्ध इव अब्रवीत् सुतान् सर्वान् बलमुख्यान् महाबलः रावण प्राञ्जलिर्वाक्यम् कुत्र व्यसनकर्षितः सर्वे भवन्तः सर्वेण हस्ते नरसमावृताः निर्यान्तूरथ संग च पादा तेशोभिशोभिता एकं रामं परिक्षिप्य समरे हन्तुमर्हथ वर्षन्तः शरवर्षाणि प्रावृट्कालैवाम्बुदः अथवा शरे तीक्ष्णै भिन्नगात्रम् हवे भवद्भीष्वो निहन्तास्मि रामम् लोकस्य पश्यतः इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसा निर्ययूस्ते रथे शीघ्रे नाना नैकै च परिघान् पट्टिशान् चैव शरखर्ग परश्वधान् शरीरान्त् करान् सर्वे शिक्षिपुर्वानरान् प्रति वानराश्च द्रुमान् शैलान् राक्षसान् प्रति शिक्षिपुः सङ्ग्रामो महाभीमः सूर्यस्य उदयनं प्रति रक्षतां वानराणां च तुमुरसमपद्यत ते गदाभिः रासे खड्गै परश्वधैः अन्योन्यम् समरे जघ्नु सदा वानर राक्षसाः एवम् प्रूते सङ्ग्रामे यद्भुतम् तु माद्रजः रक्षसाम् वानराणाम् च शान्तम् शोणितविश्रवै मातङ्गरसकोला च शर्मत्या धज शरीरसङ्घाटवः प्रशस्रुशोणितापगः ततसे वानरा सर्वे शोणितौघ परिप्लुताः भज वर्म न श्वान् नानाप्रहराणि च अप्लुत्याप्लुत्य समरे वानरेन्द्रा भभञ्जिरे केषान् कर्णललाटं च नासिका रक्षसां दश नै तीक्ष्णैः न खापि व्यकीर्तयन् एकैकं राक्षसंख्ये शतं वा नरपुङ्गवः अभ्यधावन्तफलिनम् वृक्षं शको न यो यथा तदा गदाभिर्गुर्वीभिः प्रासे खड्गे परश्व निर्जघ्नो वा पर्वतोपमः राक्षसैर्वध्यमानानाम् वानराणाम् महाचमुः शरण्यम् शरणम् यात रामम् दश रथात्मजम् ततो रामो महातेजा धनुरादाय वीर्यवान् प्रविश्य राक्षसम् सैन्यम् शर्वर्षम् ववर्ष च प्रविष्टम् तु तदा रामम् मेघासूर्यमिवा अम्बरे नाभिजग्मो महाघोरा निर्दहन्तम् शराग्निना कुत्यान्येव सुघोराणि रामेणज चरह रणे रामस्य ददृषु कर्मण्य सुकराणि ते चालयन्तम् वा सैन्यम् विहमन्तम् महारथान् ददृशु तेन वै रामम् यथा छिन्नम् भिन्नम् चरिदग्धम् प्रभग्नम् चत्र पीडितम् बलम् रामेण ददृशु न, न रामम् शीघ्रकारिणम् प्रहरन्तम् शरीरेषु न ते पश्यन्ति राघवम् इन्द्रियार्थेषु तिष्ठन्तम् भूतात्मान्निव प्रजा एष हन्ति गजानेकम् एष एष हन्ति शरे तीक्ष्णैः पदातिन् वाजिभितः इति ते राक्षसा सर्वे रामस्य सदृशा नृणे अन्योन्यम् कुपिता जघ्नु सादृशा राघवस्य तु न ते ददृशिरे रामम् दहन्तमिव मोहिता परमात्रेण गान्धर्वेण महात्मना ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः पुनः पश्यन्ति काकुत्स्थम् एकम् वेव महाहवे भ्रमन्तिम् काञ्चनीम् कोटिम् कार्मुकस्य महात्मनः अलातचक्र प्रतिमाम् ददृशूस्ते न राघवम् शरीरणाभिः सत्वाचि शरारम् नेमि कार्मुकम् जयघोष तेजो बुद्धि दिव्याश्रयगुणपर्यन्तम् निघ्नन्तम् युधि राक्षसाम् ददृशू रामचक्रम् तत् कालचक्रमिव प्रजा अनेकम् दशसहस्रम् रथानाम् वातरं हसाम् अष्टादश सहस्राणि कुञ्जराणाम् तरस्विनाम् चतुर्दश सहस्राणि प्रारोहाणाम् च वाजिनाम् पूर्णेशतसहस्रे द्वे राक्षसानां पदातीनाम् दिवसस्याष्ट भागेन श्रेरग्ने शिखोपमयी हतान्येकेन रामेण रक्षसाम् कामरूपिणाम् तै हताश्वा हतर्था शान्ताविमथिदध्वय अभिपेतोपरिम् लङ्काम् हत शेषा निशाचरः फतेर्गजपदात्यश्वै तद्बभूव रणाजिरम् अक्रीडभूमि क्रुद्धस्य रुद्रस्यैव महात्मनः ततो देवा सुगन्धर्वा सिद्धाश्च परमाशयः साधु साथ रामस्य तत्कर्म समपूजयन् तदा राम सुग्रीवम् प्रत्यनन्तरम् विभीषणं च धर्मात्मा हनुमन्तं च वानरम् जाम्बवन्तं हरिश्रेष्ठम् मन्दं द्विविधमेव च एतदस्त्र बलम् दिव्यम् मम भ्रात्रम्बस्य वा निहत्य तां राक्षसराजवाहिनीम् कामतरा चक्रतमो महात्मा अस्त्रेषु शस्त्रेषु जितक्व संस्ूयते देवगणै प्रवृष्टै इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे श्रीनमतीतमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु